उत्तरकाण्डं स्वर्गम् एय् श्रीमहादेव उवाच अधकाले गते कस्मिन् भरतो भीमविक्रमः युधा जिदा मातुलेन क्याहोदोगात् ससैनिकः रामाज्ञया गतस्तत्र हत्वा गंधर्वनायकान् तिस्रकोडीपुरे द्वेदो निवेश्य रघुनन्दनः पुष्करं पुष्करावत्यां तक्षं तक्षशिलाक्वये अभिषिच्य सुतौ तत्र धनधान्यसुहृद्वृतौ पुनरागत्य भरदो रामसेवापरो भवद तदप्रीदो रघुश्रेष्ठो लक्ष्मणं प्राहसादरम् उभौ कुमारौ सौमित्रे गृहीत्वा पश्चिमां दिशं तत्र भिल्लान्विनिर्जित्य दुष्टान् सर्वापकारिणः अङ्गदश्चित्रके दुश्च महासत्त्वपराक्रमौ द्वयो द्वे नगरे कृत्वा गजाश्व धनरत्नकैः अभिषिच्य सुतौ तत्र शीघ्रमागच्छ मां पुनः रामस्याज्ञां पुरस्कृत्य गजाश्व बलवाहनः गत्वा हत्वा रिपून् सर्वान् स्थापयित्वा कुमारकौ सौमित्रिः पुनरागत्य रामसेवा परोभवद ततस्तु काले महदिप्रयादे रामं सदा धर्मपथे स्थितं हरिं द्रष्टुं समागादृशिवेषधारी कालस्तदो लक्ष्मणमित्युवाच निवेदय स्वादिबलस्य दूतं मां द्रष्टुकामं पुरुषोत्तमाय रामाय विज्ञापनमस्ति तस्य महर्षिमुख्यस्य चिराय धीमन तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरयान्वितः आचचक्षेथ रामाय ससंप्राप्तं तपोधनम् एवम् ब्रुवन्तं प्रोवाच लक्ष्मणम् राघवो वचः शीघ्रम् प्रवेश्यतां तात मुनिः सत्कारपूर्वकम् लक्ष्मणस्तु तथेत्युक्त्वा प्रावेशयदतापसम् स्वतेजसाज्वलन्तं तं कृतसिक्तं यथा नलं सोऽभिगम्य रघुश्रेष्ठं दीप्य मानस्वतेजसा मुनिर्मधुरवाक्येन वार्धस्वेत्याहराघवम् तस्मै स मुनये कृत्वा यथा विधि पृष्ट्वा नामयमव्यग्रो रामः पृष्टोधतेन सह दिव्यासने समासीनो रामः प्रोवाच तापसं यद्धर्थमागतोऽसि त्वमिह तत्प्रापयस्व मे वाक्येन चोदितस्तेन रामेणाह मुनिर्वचः द्वन्द्वमेव प्रयोक्तव्यं मना लक्ष्यन्तु तद्वचः नान्येन चैतत् श्रोतव्यं नाख्यातव्यं च कस्यचिद् शृणुयाद्वा निरीक्षेद्वा यस्स वध्यस्त्वया प्रभो तथेति च प्रतिज्ञाय रामो लक्ष्मणमब्रवीद तिष्ठत्वं द्वारिसौमित्रे नायात्वत्र जनोऽरहः यद्यागच्छति को वापि वध्यो मेन संशयः ततः मुनिं रामो येन वा विसर्जितः यत्ते मनीषिदं वाक्यं तद्वदस्वममाग्रदः ततःप्राह मुनिर्वाक्यं शृणुराम यथा तथं ब्रह्मणाप्रेषितोऽस्मि कार्यार्थे तेन्दिकं प्रभो अहं हि पूर्वजो देव तव पुत्रः परन्तप मायासङ्गमजो वीरकालसर्वहरस्मृतः ब्रह्मा त्वामाह भगवान् सर्वदेवर्षिपूजितः रक्षितुं स्वर्गलोकस्य समयस्ते महामदे पुरात्वमेक पुत्रमजी पुरानेमेकोकाहृत्य मयया भोगवदम माध मायया तथा भोगवद नागमनंदमुदेशय मनयिवास महाबलौ मधुकैडभकौ दैत्यौ हत्वा मेदोऽस्ति सञ्चयम् इमां पर्वतसम्बद्धां मेदिनीं पुरुषर्षभ पद्मे दिव्यार्कसङ्गास्ये नाभ्यामुत्पाद्य मामपि मां विधाय प्रजाध्यक्षं मयि सर्वं न्यवेदयद ोकं संयुक्तसंभारस्त्वामवोचं जगत्पदे रक्षां विधत्स्वभूतेभ्यो ये मे वीर्यापहारिणः ततस्त्वं कश्यपाज्जादो विष्णोर्वामनरूपधृक हृतवानसि भूभारं वधा गणस्य च सर्वासुत्सार्यमाणासु प्रजासु धरणीधर रावणस्य वधाकाङ्क्षी मर्त्यलोकमुपागतः दशवर्षसहस्राणि दशवर्षशतानि च चा। कृत्वा वासस्य समयं त्रिदशेष्वात्मनः पुरा सदे मनोरथ पूर्णः नृषु पालस्तापूपगमत तद भूयच ते बुद्धिराज्यमु तवद्रम तेमाहिताह ये गमने बुद्धिदेवलोक जितेन्द्रिय सनाधा विष्णुना देवा भजन्तु विगतज्वराः चतुर्मुखस्य तद्वाक्यं श्रुत्वा कालेन भाषितं हसन् रामस्तदा वाक्यं कृष्णस्य अन्तकमब्रवीद श्रुतं तव वचोमेद्य ममापिष्ठतरं तु तद् सन्तोषः परमो ज्ञे यस्त्वदागमनकारणात् त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः भद्रं ते यद एवाहमागतः मनोरथस्तु सम्प्रातो न मेत्रास्ति विचारणा मत्सेवकानां देवानां सर्वकार्येषु वै मया स्थातव्यं मायया पुत्र यथा चाकप्रजापतिः एवं तयो कथयतोर्दुर्वासा मुनिरभ्यदाथ राजद्वारं राघवस्य दर्शनापेक्षया द्रुतम् मुनिर्लक्ष्मणमासाद्य दुर्वासावाक्यमब्रवीद शीघ्रं दर्शय रामं मे कार्यं मेत्यन्तमाहितं तच्छ्रुत्वा प्राह सौमित्रिर। मुनिम् तेजसं रामेण कार्यं किं तेद्य किं ते भीष्टं करोम्यहं राजा कार्यान्तरे व्यग्रो सम्प्रतीक्ष्यतां तच्छ्रुत्वा क्रोध सन्तप्तो मुनिः सौमित्रिमब्रवीद अस्मिन् क्षणे तु सौमित्रे न दर्शयसि चेद्विभुं रामं स विषयं वंशं भस्मीकुर्यां न संशयः श्रुत्वा तद्वचनं घोरमृषेर्धुर्वससो भृशम् स्वरूपं तस्य वाक्यस्य चिन्तयित्वा स लक्ष्मणः सर्वनाशाध्वरं मेद्य नाशोह्ये कस्य कारणाद् निश्चित्यैवं ततो गत्वा रामाय श्रुत्वा रामः कालं शीघ्रम् निर्गम्य रामोऽपि ददर्शात्रे सुतं मुनिम् रामोऽभिवाद्यसम्प्रीतो मुनिं रामो पप्रच्छ सादरं किं कार्यं ते करोमीति मुनिमाहरकोत्तमः तच्छ्रुत्वा रामवचनं दुर्वासा राममब्रवीद अद्य वर्षसहस्राणामुपवाससमापनम् अधो भोजनमिच्छामि सिद्धं यत् ते रामो मुनिवच श्रुत्वा सन्तोषेण समन्वितः ससिद्धमन्नं मुनये यथावत् समुपाहरद मुनिर्भुक्त्वान्नममृतं सन्तुष्टः पुनरभ्यगाद स्वमाश्रमं अवाङ्मुखो दीनमना न शशाकाभिभाषितुं मनसा लक्ष्मणं ज्ञात्वा हतप्रायं ऋद्वह अवाङ्मुखो बभूवाध तूष्णीमेवाखिलेश्वरः ततो रामं विलोक्याः सौमित्रीर्दुःखसम्पृदं तूष्णीं भूतं चिन्तयन्तम् गर्हन्तं स्नेहबन्धनं मृदेत्यज सन्तापं जहि मां रघुनन्दना गलस्य कलिता पूर्वमेवेदृशी प्रभो त्वयि हीनप्रदिज्ञेतु नरको मे ध्रुवं भवेद मयि प्रीतिर्यदि भवेद्यनुग्राह्यता तव त्यक्त्वा शङ्कां जहि प्राज्ञ माधर्मम् त्यज प्रभो सौमित्रिणोक्तम् तच्छ्रुत्वा रामश्चलितमानसः आहूय मन्त्रिण सर्वान् वसिष्ठम् चेदमब्रवीद मुनेरागमनम् यत्तु कालस्यापि हि भाषितम् प्रतिज्ञामात्मनश्चैव सर्वमावेद यत्प्रभुः श्रुत्वा रामस्य वचनं मन्त्रिणः स पुरोहिताः ऊचुः प्राञ्चलयः सर्वे राममक्लिष्टकारिणं पूर्वमेव किर्दिष्टं तव भूभारहारिणः लक्ष्मणेन वियोगस्ते ज्ञादो विज्ञानचक्षुषा त्यजाशु लक्ष्मणं राम मा प्रतिज्ञां त्यज प्रभो प्रतिज्ञाते परित्यक्े धर्मो भवति निष्फलः धर्मे नष्टे किले रामत्रैलोक्यं नश्यति ध्रुवं त्वं तु सर्वस्य लोकस्य पालकोऽसि ऋकोत्तमम् त्यत्वा त्यक्त्वा लक्ष्मणमेवैतं त्रैलोक्यं त्रामर्हसि रामो धर्मार्थसहितं वाक्यं तेषामनिन्दितं सभामध्ये समाश्रुत्य प्राह सौमित्रिमञ्जसा यथेष्टं गच्छ सौमित्रे मा भूधर्मस्य संशयः परित्यागो वधो वापि सदामेवो भयं समम् एवमुक्ते रघुश्रेष्ठे दुःखव्याकुलिते क्षणः रामं प्रणम्य सौमित्रिशीघ्रं गृहमगात् स्वकं तदोगात्सरयूधीरमाचम्य सकृताञ्जलिः नवद्वाराणि संयम्य मूर्ध्निप्राणमधारयद यदक्षरं परं ब्रह्म वासुदेवाख्यमव्ययम् पदं तत्परमं धाम चेदसा सोऽभ्यचिन्तयद वायुरोधेन संयुक्तं सर्वे देवात् सहर्षयः साग्नयो लक्ष्मणं पुष्पै स्तुष्टुवुश्च समाकिरन् अदृश्यं विबुधैः कैश्चित् सशरीरं च वासवः गृहीत्वा लक्ष्मणं शक्रस्वर्गलोकमधागमद ततो तदो दुर्भागं तं देवं सुरसतमाः सर्वे देवर्षयो दृष्ट्वा लक्ष्मणं समपूजयन् लक्ष्मणे दिवमागधदे हरौ सिद्धलोकगतयोगिनस्तदा ब्रह्मणा सह समागमन्मुदा द्रष्टुमाहिद महाहिरूपकम् यदि श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे अष्टमः सर्गः